नारायणीयं दशकं नयन् मीटर् पृथ्वी स्थितः सकमलोद्भवस्तवहिनाभिपङ्गेरुहे कुतस्विदिदमम्बुदा उदिदमित्यनालोकयन् तदीक्षणकुतूहलात् प्रदिशं विवृत्ताननश्च दुर्वदनदामगाद्विगसदष्टदृष्ट्यम्बुजाम् महार्णवविकूर्णितं कमलमेव तत्केवलं विलोक्य तदुपाश्रयं तव तनुं कमलोदरे महदि कुतस्विदिदमम्बुजं समजनीदि चिन्तामगाद अमुष्य हि सरोरुह किमपि कारणं सम्भवेदि स्म कृतनिश्चयः स खलु नाल रन्ध्राध्वना स्वयोगबलविद्यया समवरूढवान् प्रौढधिस्त्वदीयमधिमोहनम् न तु कले वरं दृष्टवान् तद सकलनालिकाविवरमार्गगो मार्गयन्प्रयस्य शतवत्सरं किमपि नैव सन्दृष्टवान् निवृत्त्यकमलोदरे सुखनिषन् एकाग्रथीसमाधिबलमादधे भवदनुग्रहैकाग्रही सदेन परिवत्सरैर्दृढसमाधिबन्धोल्लसत्प्रबोध विशदीकृतः स खलु पत्मिनी सम्भवः अदृष्टचरमद्भुतं तव हि भुजगभोगभागाश्रयम् किरीडमुगुडोल्लसत्कटकहार केयूरयुङ्मणिस्फुरिदमेखलं सुपरिवेदपिदाम्बरं कलायकुसुमप्रभं गलतलोल्लसत्कौस्तुभं वपुस्तदयि भावये कमलजन्मने दर्शितम् श्रुतिप्रकरदर्शितप्रचुरवैभवश्रीपदे हरे जय जय प्रभो पदमुपैषिदिष्ट्या दृशोः कुरुष्वधियमाशु मे भुवननिर्मितौ कर्मढामि दि लभस्व भुवनत्रयी रजनदक्षदामक्षदां गृहाणमदनुग्रहं कुरुतपश्च भूयो विधे भवत्वाकिलसाधनी साधनी मयि जक्तिरत्युत्कटेत्युदीर्य गिरमादधा मुदिदचेदसं वेधसं शदम् कृततपास्ततः सकलु दिव्य संवत्सरानवाप्य च तपो बलं मदिबलं च पूर्वाधिकं। उदीक्ष्य किल कम्पिदम्पयसि पङ्कजं वायुना भवद्बलविदृम्भिदः पवनपाधसि पीतवान् तवैव वा कृपया पुनः सरसिजेन तेनैव सः प्रकल्प्य भुवनत्रयीं प्रववृदे प्रजा निर्मितौ तथाविधकृपाभरो गुरुमरुत्पुराधीश्वरत्वमाशु परिपाहि मां गुरुदयोक्षितैरीक्षितैः ॐ